नारदपुराणं पूर्वार्धम् अध्यायम् हण्ड्रेड् अण्ड् ट्वेन्टि वन् सनातन उवाच अधव्रतानि द्वादश्या कथयामितवानक यानि कृत्वा नरो लोके विष्णो प्रियतरो भवेद चैतस्य शुक्लद्वादश्यां मदनव्रतमाचरेद तापयेदव्रणं कुम्भं सित तन्तुलपूहितं नानाबलयुधं तद्वद्दिक्षु दण्डसमन्वितं वस्त्रयुगच्छन्नं सितचन्दनचर्चितम् नानाभक्ष्यसमोपेदं सहिरण्यं स्वशक्तिदख ताम्रपात्रं गुडोपेदं तस्योपरि निवेशयेत् तत्र सम्पूजयेद्देवं कामरूपिणमच्युदम् सोपवासोपरेहनि पुनप्रादसमभ्यर्चब्राह्मणाय निवेदयेद ब्रह्मणान् भोजये चैव तेभ्यो दद्या च दक्षिणां वर्षमे वंवृतं कृत्वा कृदधेनुसमन्वितां शय्यां तु दद्याद्गुरवे सर्वोपस्करसंयुतां काञ्चनं कामदेवं च शुक्रं गां च पयस्विनीम् वासोभिर्द्विज दाम्पत्यं पूजयित्वा समर्पयेत् प्रियदाङ्गमरूपी मे खरीरित्येवमुच्चरन् यकुर्याद्विधिनानेन कुर्याद्विधिनानेन मदनद्वादशी व्रतं स सर्वपापनिर्मोक्त अस्यामेव समुद्दिष्टं भर्तृद्वादशिका स्वास्तृतां तत्र शय्यां तु कृत्वात्र श्रीयुगं हरिं संस्थाप्य मण्डपं पुष्पैस्तदुपर्प्युपकल्पयेद् तदसम्पूज्य गन्धाद्यैर्व्रदि जागरणं निशि नृत्यवादित्रगीताद्यैस्ततः प्रातः परेखनि सशय्यं श्रीहरं हैमं द्विजग्रियाय निवेदयेद्विजान् सम्बोध्य विसृज दक्षिणाभिप्रतोषितान् एवं कृतव्रतस्याभि दाम्पत्यं जायते स्थिरं सप्तजन्मसुभुङ्क्तेजभोगान् लोकद्वयेक्षितान् वैशाख शुक्लद्वादश्यां सोप वासो जितेन्द्रियः सम्पूज्य माधवम् भक्त्या गन्धाद्यैरुपचारकैः पक्तान्नम् तृप्तिजनकम् मधुरं सोदकुम्भकम् विप्राय दद्याद्विधिवन् माधवप्रीयदामिति द्वादश्याम् ज्येष्ठशुक्लायाम् पूजयित्वा त्रिविक्रमम् गन्धाद्य मधुरान्नाढ्यं करग विनिवेदयेद् व्रदि द्विजायत व्रते नानेन सन्तुष्टो देवदेवस्त्रिविक्रमः ददाति विपुलान् भोगानन्दे मोक्षं च मधुरानेन तान् पूज्य पृथग् गन्धादिकै प्रमाद तेभ्यो वासां सिद्धण्डांश्च ब्रह्मसूत्रानि मुद्रिकाः पात्राणि ददधिभक्त्या विष्णुर्मे प्रीयतामिति द्वादश्यां तु नभशुक्ले श्रीधरं पूजयेद्व्रती गन्धाद्यैस्तत्परोभक्त्या दधिभक्तैर्दिविजोतमान् सम्भोज्य दक्षिणारौत्यां ना दत्वा नत्वा विसर्जयेद् व्रते नानेन देवेश श्रीधर प्रीयतामिति द्वादश्यां नभस्य शुक्ले व्रदि सम्भोज्य वामनं तदग्रे भोजयेद्विप्रान् पाय सैर्द्वादशैव च सौवर्णि दक्षिणां दत्वा विष्णो प्रीतिकरो भवेद् द्वादश्यामिषशुक्लायां पद्मनाभं समर्चयेद् गन्धाद्यैरुपचारैस्तु तदग्रे भोजये द्विजान् वस्त्राढ्यां सौवर्णीं दक्षिणां ददे व्रते नैदेन सन्तुष्टपद्मना भोक्तिविजोत्तमः स्वेदद्विभगतिं दद्या देहभोगांश्च वाञ्छितान् कार्तिके कृष्णपक्षेदो गो वष तत्र वत्सयुताङ्गान्दुसमालिख्य सुगन्धिभिः चन्दनाद्यैस्तदा पुष्पमालाभिप्रार्च्यतामृगे पात्रे पुष्पाक्षततिलैरार्घ्यं कृत्वा विधानतः प्रदद्य पदमूले स्या मन्त्रेण नारद क्षीरोद्दार्णवसम्भुदेसुरासुरनमस्कृते सर्वदेवमये देवि सर्वदेवैरलं कृते मादर्मादर्गवं मादर्गृहाणार्घ्यं नमोऽस्तु ते तदोमाशादि संसिद्धान्वटकांश्च निवेदयेद् एवं पञ्चदशैकं वा यथा विभवमात्मनः सुरभित्वं जगन्मादा नित्यं विष्णुपदे स्थिते अस्तिता सर्वदेवमये ग्रासमया दत्तमिमं ग्रस सर्वदेवमये देवि सर्वदेवैरलं कृते मा धर्म माभिलषितं सबलं गुरुनन्दिनी तद्दिने तैलपक्वं च स्थालीपक्वं दिव्योत्तमं गोक्षीरं गोघृतं चैव दति तक्रं च वर्जयेद्वादश्यामोर्ज शुक्लायां देवं दामोदरं द्विजा समभ्यार्थ्योपचारैस्तु गन्ताध्यै सुसमाहिदः तदग्रे भोजयेद्विप्रान् पक्वान्येनार्कसङ्ख्यकान् तद् कुम्भानपां पूर्णान् वस्त्राच्छन्नान् समर्चितान् स पूगमो तकस्वर्णां स्तेभ्य प्रीत्या समर्पयेत् प्रियो विष्णोर्जायदे किल भोगभुग देहान्ते विष्णुसायुज्यम् लभते दे नात्र संशयः नीराजनव्रतम् चात्र गदितम् तन्निबोध मे सुप्तोद्धितम् जगन्नाथमलङ्कृत्य निशागमे समुद्दीप्ते रौप्यदीपिकया मुने गन्धपुष्पाद्य अर्चितया जनैर् नीराजयेद्धरिं तत्रैवानुगतां लक्ष्मीं ब्रह्माणिं चण्डिकां तथा आदित्यं शङ्करं गौरीं यक्षं गणपतिं ग्रहान् माधृ पिधृन्नगान्नागान् सर्वान्नीराजयेत्प्रमाद गवां निराजनं कुर्यान् महिष्यादेश्च मण्डलं नमो जायेदि शब्दैश्च खड्डाशङ्कादिनिस्वनैः सिन्दूरालिप्तशृङ्गाणां चित्राङ्गाणां च वर्णकैः गवां कोलाहले वृत्ते निराजन महोत्सवे तुरगा लक्षणोपेधां गजांश्च मदविप्लुतान् राजचिह्नानि सर्वाणि क्षत्रादीनि च नारदा राजा पुरोद्धासा सार्धं मन्त्रिभृत्यपरःसरः पूजयित्वा यथा न्यायं नीरज्य स्वयमाधराद शङ्खदूर्यादिकोषैश्च नानारत्नविनिर्मिते सिंहासनेन वे तिष्ठेत् साम्यगलम् कृतः तद सुलक्षणायुर्यौ कुदा वेश्या वाधकुलाङ्गना तया नीराजयेच्च नैः एवमेशमः सान्धिकर्तव्या प्रतिवत्सरम् राज्ञा येषां राष्ट्रे पुरे ग्रामे क्रियते शान्तिरुत्तमा नीराजनाभिधा विप्रतद्रोगा यान्ति संक्षयं द्वादश्यां मार्गशुक्लायां प्राणो नरो यादश्च चिदीर्घयो नृपश्चैव हंसो नारायणस्तथा विभुश्च विप्रभुश्चैव साध्या द्वादशकीर्तिताः पूजयेद्गन्धपुष्पाद्यैरेतां स्तुलकल्पितान् ततो द्विजाग्र्यान् सम्बोध्य द्वादशात्र यदस्यामेव विदिदं द्वादश दित्यसंज्ञार्चयेद्धीमानादित्यान् द्वादशापिज धाधा मित्रो यमभूष सक्रोंसो वरुणो भगः त्वाष्टाविभस्वं सविधा विष्णुर्द्वादश ईडिदाः प्रतिमासं द्विशुक्रायां अयमि सम्भुज्यविधिना भोजयित्वा द्विजोतमान् मधुरान्यै सुसत्कृत्य प्रत्यगं चार्पयेद्व्रती एव व्रतं नर कृत्वा द्वादशादित्यसंज्ञाकं सूर्यलोकं समासाध्य भुक्त्वा भोगांश्चरं तदः जायते भुवि धर्मात्मा मानुष्यरोगवर्धितः ततो व्रतस्य पुण्येन पुनरेव लभेद्व्रतम् तत् पुण्येन रवेन् भित्त्वा मण्डलम् द्विजसत्तम निरञ्जनम् निराकारम् निर्द्वन्द्वम् ब्रह्म चाप्नुयादम् अत्रैवाखण्डसंज्ञम् च व्रतमुक्तद्विजोत्तम मोतिर्निर्माय सौवर्णिम् जनार्दनसमाह्वयम् अभ्यर्च्य गन्धपुष्पाभ्यैषदग्रे भोजयेद्विजान् द्वादशप्रतिमासं तु नक्ताशी स्याजितेन्द्रियः ततः समान्देतां मूर्तिं समभ्यर्थ्यविधानदः गुरवेदेन सहितां तदा सम्प्रार्थयेत्तथा शतजन्मसु यत्किञ्चिन् मया खण्डव्रतं कृतं पदवं स्वप्रसादेन ततः खण्डमिहास्तु मे तद संभुज ढ्ययितुपायसैः द्वादशैव हि सौवर्णीं दक्षिणां प्रदनेन्नमेद यदि कृत्वा व्रतं विप्रणीयित्वा जनार्दनं सौवर्णेन विमानेन यादि विष्णोः पदं पौषस्य कृष्ण द्वादश्यां दशम्यां विधिव स्नात्वा गृह्णीयाद्वमयं व्रती श्वेदाय वैकवर्णाया अंतरिक्षगदं द्विज अष्टोत्तरशतं तेन पिण्डिका कल्प्य नारद दा। शोर्षये दादवे धृत्वा पात्रे ताम्रेद तां म्रेध मृण्मये एकादश्यां सोपवाससमभ्यर्च्यविधानतः सौवर्णीं प्रतिमां विष्णोर्निशायां जागरं चरेत सुमङ्गलर्गीतवाद्यै स्तोत्रपाढैर्यपादिभिः तद प्रभादे द्वादश्यां तिलपात्रोपरिस्थिता अम्बुपूर्णे खडेण्यस्य पूजयेद्युपचारकैः तदोप्निन्नवमुत्पाद्य काष्ठसङ्घर्षणादिभिः तं समभ्यर्थ्य विधिवदेकैकां पिण्डिकां सुधिः होमयेत्सतिलाज्यां च द्वादशाक्षरविद्यया वैष्णव्यादजपुराणां च शतमष्टोत्तरस्ततः भो जयेत्वा यत्सैर्विप्रान् प्रीत्या सुस्निग्धमानतः सहितां च कडेनैव प्रतिमां गुरवक्वेयद् विप्रेभ्यो दक्षिणां च क्रिया नरो वा यदि वा कृत्वैवमादराद लभते रूपसौभाग्यं नात्र कार्याविचारण सहस्य शुक्लपक्षे तु सुजन्मद्वादशी व्रतं स्नात्वा विधानेन भृह्णाया द्वार्षिकव्रतं पित्वा शृङ्गवार्या दौतां च कृत्वा प्रदक्षिणं प्रतिमासं तदशुक्ले दानमाचरेद हृदप्रस्थं तत् चतुष्कम् प्रमाद्वीहेर्यवस्य च द्विरक्तिकम् हेम तिदाकार्थम् पर्यः सांसदम् रौप्यस्य माशमेकम् च तृप्तिकृन्मिष्टपक्वकम् चक्रम् माशार्थ हेम्नश्च प्रस्थम् पाणिदमुत्तमम् वस्त्रम् पञ्चहस्तोन्मितम् तनुम् एवं दुमासिकं दानं कृत्वा प्राश्य यथा क्रमं गोमूत्रं जलमाज्यं वा पक्त्वा शाकं च दुर्विधं दधियुक्तं च यावन्नं तिलाज्यं चर्करान्वितं दर्भाम्बुक्षीरमुदितं प्राशनं प्रतिमासिकं एवं कृतव्रतो वर्षं सौवर्णीं प्रतिमां रवेहे कृत्वा वैताम्रपात्रस्तां न्यस्याभ्यर्थ्यविधानदः गुरवेदनसखिताम् प्रत्यार्प्य प्रत्यर्प्य प्रणमे पुरः विप्रान्द्रादश संभोज्य तेभ्यो दद्या च दक्षिणां एवं वृदवृदो विप्र जन्मा नोत्युत्तमे कुले निरोगो धनधान्याभ्यो भवेच्छा विकलेन्द्रियः मा कस्य शुक्लद्वादश्यां शालग्रामशिलां द्विजा अभ्यच्यविधिवद्भक्त्या सुवर्णां तन्मुखेऽन्यसेद तां स्थाप्यरौप्यपात्रे दूषितवस्त्रयुगावृदां प्रदद्याद्वेदविदुषेतं हि सम्भोजयेत्तदः पायसान्नेन खण्डाज्यसहितेन हितेन च एवं कृत्वैकभक्तः सन्विष्णो चिन्तनतत्परः वैष्णवं लभते धाम भुक्त्वा भोगानि हेप्सितान् अन्ध्ये सिदायां द्वादश्यां सौवर्णीं प्रतिमां हरेः अभ्यर्थ्यगन्धपुष्पाध्याय दद्याद्वेदविधे द्विज द्वि अष्टकसङ्ख्यान्विप्रांश्च भो जयित्वा च दक्षिणां दत्वा विसर्जयेत्पश्चात् स्वयं भुञ्जीद बान्धवैः ृश्योन्मीलिनिपक्षवर्धिनी वञ्चुली तथा जया जविजया जैव जयन्ती चापराजिता येदा अष्टसदो पोष्य द्वादश्यवहारिकाः श्रीनारद उवाच कीदृश्यं कीदृश्यं लक्षणं ब्रह्मन्यदासां किं फलं तथा तत्सर्वमेकमाचक्षवयाश्चान्याः पुण्यदायिकाः सुद उवाच इत्थं नारदेन द्विजोत्तमः प्रश्यस्य भ्रातरं प्राहमः भागवदं मुनिः सनातन उवाच साधु पृष्टं त्वया भ्रातसाधूनां संशयचिदा वक्ष्ये महाद्वादशीनां लक्षणं जबलं पृथक् यगादशी निवृत्ता चेत् सूर्यस्योदयदः पुरा तदा दुत्पृस्पृश्या नाम द्वादशी सा अस्यामुपोष्य गोविन्दं यः पूजयदि नारद अश्वमेधसहस्रस्य बलं लभते ध्रुवं यदा रुणोदये विधा दशम्यैकादशी तिथिः तदा तां सम्परित्यज्यत्वा दशीं समुपोषयेत् तत्रष्ट्वा सम्यक् पूजाभिधानदः राजसूयसहस्रस्य फलमुन्मीलिदेदभेद यदोदयेद् दू सविदुर्याम्यात्वेकादशीं स्पृशेद तदा वञ्चुलिपाभ्यां तु तां त्यक्तोपो त्यक्तोपोषयेत् सदा अस्यां सङ्घर्षणं देवं गन्धाद्यैरुपचारकैः पूजयेत् सततं भक्त्या सर्वस्याभयदं परं येषा मह द्वादशी तु सर्वकृदुबलप्रदा सर्वपापकरा प्रोक्ता सर्वसम्पत्प्रदायिनी कुहु वृद्धे स्यादं विप्रयदा तदा पक्षवर्धनिका नाम द्वादशी महाबला तस्यां शम्भो जये देवं प्रद्युम्नं जगदाम्पदिं सर्वैश्वर्यप्रदं साक्षात् पुत्रपौत्रविदर्धनम् यदा दुधबले पश्यद्वादशी स्यान्मधान्विता तदा प्रोक्ता अस्यां शम्भो रमापदिं सर्वकामप्रदं नृणां सर्वसौभाग्यदायकम् श्रवणार्क्षयुधा चेत् स्याद्वादशीधवले दले तदा सा विजया नाम तस्यामचेद्गदारं सर्वसौख्यप्रदं शश्वत्सर्वभोगपरायणं सर्वतीर्थबलं विप्रतां चोपो श्याप्नुयान्नरः यद्धा स्याच्च सिदे पक्षे प्राजापत्यर्क्षसंयुधा द्वादशी सा महापुण्या जयन्ती नाम तस्मृता यस्यां समर्च ये देवं वामनं सिद्धितं नृणां पुपोषितैषा विप्रेन्द्र सर्वव्रतफलप्रदा सर्वदानफला चाभिमुक्ति भुक्तिमुक्तिप्रदायिनी यदा दुः स्यात्सिद्धे पक्षे द्वादशी जीवभान्विता तदा पराजिता प्रोक्ता सर्वज्ञानप्रदायिनी अस्यां समर्चयेद्देव नारायणमनामयं संसारपाशविच्छित्तिकारकं ज्ञानसागरम् अस्यास्तु पोषणादेवमुक्तस्याद्विप्रबोधनः यदा त्वाषाढशुक्लायां द्वादश्यां मैत्रभं भवेद् तदा व्रतद्वयं कार्यं न दोषोऽत्रैकदैव श्रवणर्क्षयुतायां च द्वादश्यां भाद्रशुक्लके ऊर्जे सिदायां द्वादश्या मं त्यभे च व्रतद्वयं येदाभ्यन्दविप्रेन्द्र द्वादश्यामेकभुक्तकम् निस्सर्गदसमुद्दिष्टं व्रतं पादगनशनन्त्यकादश्या व्रतं नित्यं द्वादश्या सखितं यतः नोध्यापनमिषोद्धिष्टं कर्तव्यं जीपिता विधि इति श्रीभृगन्नरदीयपुराणे बृहदुपाख्यानि पूर्वभागे चतुर्थपादे द्वादशमासस्य द्वादशीव्रतनिरूपणम् नामैक विंशत्यधिकशततमोऽध्यायः ओम्